श्रीमद्भागवत् महापुराणं चतुर्थे स्कन्ध अथैकत्रिंशोऽध्यायः मैत्री उवाच ततोत्पन्नविज्ञाना आस्विधोऽक्षदभाषितम् स्मरन्त आत्मदे भार्यां सृज्य प्रां व्रजन् सर्वभूतात्ममेधसा प्रदित्यां दिशुवेलायां तान्यर्जितम् प्राणाम् अनो वचो दृशो जितासनानशान्तसमानविग्रहान् परे मले ब्रह्मणे योजितात्मनसुरासुरे ज्यो दधिषे स्मनारदः समागतम् स उत्थाय प्रणिपद्याभिनन्द्य च पूजयित्वा यथा देशम् सुखासीनम् अथा ब्रुवन् स्वागतं ते सुरर्सेऽद्यदिष्टातो दर्शनं गतः तव चक्रमणं ब्रह्मण्भयाय यथारवेह यदादिष्टं भगवता स्वेनाथोऽक्षजेन च तद्गृहे सुप्रसक्तानां प्रायसपितं प्रभो तन्न प्रद्योतयाध्यात्मज्ञानं तत्त्वार्थदर्शनं येदाञ्जसा तरिष्यामो दस्तरं भवसागरं नैत्रे इति प्रचेतसां पृष्टो भगवान् नारदो मुनिः भगवत्युत्तमश्लोक आविष्टात्मा प्रविन्दृपान् नारदुवाच तञ्जन्मतानि कर्वाणि तदायून् तन्मनोवचः नृणां जेनेह विश्वात्मा सेव्यते हरिरीश्वरः किं जन्मभेतृभिर्वेह शौक्लसावेत्रयाज्ञकैः कर्मभिर्वात्रैः प्रोक्तैः पुंसोऽपि विवधायुषा श्रुतेन तपसा वा किं वचोभिः चित्तनवृद्धिभिः बुद्ध्या वा किं निपुणयाम् बलेनेन्द्रियं राधसा किं वा योगेन साङ्ख्येन न्यासस्वाध्याययोरपि किं वा श्रेयोभिरन्यैश्च न, न यद्रात्मा ते यसामपि सर्वेषाम् आत्मारर्थतः सर्वेषामपि भूतानां हरिरात्मात्मनः प्रिय यथातरोर्मूलनिषेचते निसर्जनेन तृप्यन्ति तस्कन्धभुजोपशाखाः त्राणोपहाराय च ततेन्द्रियाणां तथैव सर्वार्हणमं मद्युतेद्याम् यथैव सूर्यात् प्रभुवन्ति वार पुनश्च तस्मिन् त्रिविशन्ति काले भूतानि भूमौ श्रीजङ्गमानि तथा हरावेव गुणप्रवाह एतत्पदं तज्जगदात्मनः परं सकृद्विभातं सवितुर्यथा प्रभां यथा सवो जागृतिशुब्धसक्तयो द्रव्यक्रिया ज्ञानभिधा यथा नमस्तस्य भ्रतमः प्रकाशा भवन्ति भोपान् भवन्ति नुक्रमान् देवं परे ब्रह्मणि सक्तयस्त्वमूरजस्तम सत्त्वमिति प्रवाह तेनैकमात्मा नमशेषदेशिनां कालं प्रधानं पुरुषं परेशं स्वतेजसाधसगुणप्रवाहम् आत्मैकभावेन भजद्वमद्धा दया सर्वभूते सु सन्तुष्टया वा सर्वेन्द्रियोपशान्त्या च तस्यत्यासो जनार्जनः अपहत सकलैषणां मनात्मन्नविरं विरतमेधितभावनोपहुता निजजनं वसङ्गत्वमात्मनोऽयं न सरति छिद्रवदक्षरसतां हि न भजते कुमनेषूणां शयुज्ञां हरिर्धनात्मधनप्रियो रसज्ञ श्रो तद्धनकुलकर्मणां मदर्यै विदधति पापम् अकिञ्चनेषु सस्यो धियमनुचरितिं तदर्शिनश्च द्विपदपतीनबुधाश्च यस्वपूर्णः न भजति निजं धृत्यवर्गतन्त्रः कथममुद्मोद्विसृजेत्पमान् कृतज्ञ नैत्रे इति प्रचेतसो राजन्यन्याश्च श्रावयित्वा ब्रह्मलोकं ययौ सायं भुवो मुनिः तेऽपि तन्मुखनिर्यातं यशोलोकमलापहं हरेर्निशम्य तत्पादं ध्यायन्त तद्गतिं यजो ते तद्देभिः तं धत्तम् अर्यमां नारदस्य संवादं हरिकीर्तनम् य एष उत्तानपदोन् मानवस्यानुवर्णितः वंशप्रियव्रतस्यापि विबोधानुपसत्तमा यो नारदात्मविद्याम् अधिगम्य पुनर्महिं भुक्त्वा ऐश्वरं समगात्मनम् इमां तु कोसारविणोपवर्णितां छत्तानि सम्याजितवादिसत्कथाम् प्रविद्धभावो शुकलाकुलो मुने दधानमृह्णाचरणम् हृदा हरे विदुर्वाच सोऽयमद्य महायोगिन् भवता करुणात्मना दर्शितत्तमश पारो यत्रा किञ्चन गोहरी ते सो उवाच ते तद्य शृणुयाद्राचन्द्राज्ञां धर्यपितात्मनाम् आयुर्धनं यश स्वस्ति गतमैश्वर्यमाप्नुयात् ते श्रीमद्भागवते महाप्राणे वैयासिज्ञां अशादशत्रायां पारभुंसां सहितायां चतुर्थस्कन्धे प्रथेतसोपाख्यानं नामैकंशोऽध्याय इति चतुर्थस्कन्धः समाप्तः हरिः ओं तस्सत् हरिः